हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे श्रीषष्टितमः सर्गः कुम्भकर्णस्य रावणम् प्रति तत् कुकृत्या निमित्तक उपालम्भ तं सान्वयित्वा स्वकीय युद्ध विषयकोत्साहस्य तेन प्रकटनञ्च सस्य राक्षसराजस्य निशम्य परिदेवितम् कुम्भकर्णो बभाषेदम् वचनम् प्रजहास च दृष्टो दोषो हि विनिर्णये। पुरा नभियुक्तेन हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया शीघ्रम् कल्वभ्युपेतम् वाम् त्वाम् फलम् पापस्य कर्मणः निर्येष्वेव पतनम् यथा दुष्कृतकर्मणः प्रथमम् वै महाराज कृत्यम् एतदचिन्तितम् केवलम् वीर्यदर्पेण नानुबन्धो विचारितः यः पश्चात् पूर्वकार्याणि पूर्वं पूर्वञ्चोत्तरकार्याणि न नसवेद वेद देचकाले देशकालविहीनानि कर्माणि विपरीतवत् क्रियमाणा निश्यन्ति हविंश प्रतेष्विव त्रयाणां पञ्चधायोगम् कर्मणाम् यत् प्रपद्यते सचिवै समयं कृत्वा स सम्यग् वर्तते पथि यथागमम् च यो राजा सचिवै बुद्ध्या सुहृदयश्चानुपश्यति धर्मम् अर्थं हि कामं वा सर्वान् वा रक्ष साम्पत्ति भजेत पुरुषकाले त्रीणि द्वन्द्वानि वा पुनः त्रिषु च तेषु यच्छ्रेष्ठं श्रुत्वा राजा वा राजमात्रो वा व्यस्थं तस्य बहुश्रुतम् उपप्रधानम् शान्तं च भेदं काले विक्रमम् योगं च रक्षसां श्रेष्ठ तौ भव च नयानयौ काले धर्मार्थकामान्य सम्मन्त्र सचिवै सह निजीवितात्मवान् लोके न सव्यसनमाप्नुयात् हितानुबन्धमालोक्य कुर्यात् कार्यमिहात्मनः राजा सहार्थ तत्त्वज्ञै सचिवे बुद्धिजीविभिः भी अनभिज्ञाय शास्त्रार्थं पुरुषाय पशुबुद्धय प्रागल्भ्याद् वक्तुमिच्छन्ति मन्त्री स्वभ्यन्तरीकृता अशास्त्र विदुषां तेषां कार्यं नाभिहितं अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् अहितं च हिताकारम् दाहे नवश्य मंत्र से कर्तव्य कृत्य दूषक विनाशयनो भर्ता सहिता शत्रुबुध विपरीता मंत्रिण्वर्ता मित्र सामहारेण मंत्र जानीय सचिवाता चपल से सहसा नु प्रधात छिद्र मने प्रपद्य क्रौंच्य खम्यव यो हिशत्रुम्ज्ञा आत्मा नाक्षति अवानोती सो नर्थ स्थान्यवरोप्य से यदु इव प्रियया मेनुजेन च तदेव नोहितम् वाक्यम् यथेच्छसि तथा कुरु तत्तु श्रुत्वा दशग्रीव कुम्भकर्णस्य भाषितम् भ्रुकुटिम् चैव सञ्चक्रे वृद्धम् क्रुद्धश्चैनम् अभाषते मांजो रिवाचार्य, किम् माम् तम् मनुषासे किम् एवम् वा कृत्वा यद्युक्तं तद् विधीयताम् विभ्रमचित्तमोहाद्व बलवीर्याश्रयेण वा नाभिपन्नम् इदानीम् यत् व्यथा तस्य पुनः कथा अस्मिन् काले तु यद्युक्तम् तदिदानीम् विचिन्त्यताम् गतम् तु न शोचन्ति गतम् तु गतमेव ममापनयजम् दोषम् विक्रमेण समीकुरू यदि खल्वस्ति मे स्नेहो विक्रमम् वाधिगच्छति यदि कार्यम् ममैतत्ते हृदि कार्य तमम् मतम् स सुहृद्यो विपन्नार्थम् दीनम् अभ्युपपद्यते स तम् अथैवम् ब्रुवाणम् स वचनम् धीरदारुणम् दृष्टोऽयम् इति विज्ञाय शनैःलक्ष्णम् उवाचः अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् कुम्भकर्णशनैर्वाक्यम् बभाषे परितान्तयन् शृणु राजन् न वैतु मम वाक्यम् अरिन्दम अलम् राक्षस राजेन्द्र सन्तापमुपपद्यते रोषञ्च सम्परित्यज्य स्वस्थो भवितुमर्हसि नै सन् मनसि कर्तव्यम् मयि जीवति पार्थिव तमहम् नाशिष्यामि यत् कृते परितप्यते अवश्यं तु हितम् वाच्यम् मया तव बन्धुभावात् अभीतम् भ्रातृ स्नेहाच्च पार्थिवे सदृशम् यच्चिकालेऽस्मिन् कर्तुम् स्नेहेन बन्धुन शत्रुणां कथनम् पश्य क्रियमाणम् मया रणे अद्य पश्यमः बाहु मया स मरमूर्धनी हते रामे स भ्रात्रा द्रवन्तीम् अदय त मैं रणाश सुखी भय महु सीता दुखिता अदय पश्य निधन सुमह प्रिय सर्वे, येते निहत बांधव अदय शोक प्रीताबुवध शोचि शत्रुर्युधि विनाशेन करोम्यश्रु प्रमार्जनम् अद्य पर्वतसङ्काशम् सूर्यम् इव तोयदम् विकीर्णम् पश्य समरे कथञ्च राक्षसैरेभि मया च परिश्रान्तितः जिघासु भीर्दाशरथिम् व्यसते तं सदा नघ निहनेष्यति राघवे नाहम् आत्मनि सन्तापम् गच्छेयं राक्षसाधिपे कामं तिदानीम् अपि माम् गदिश तम् परन्तप न परः प्रेक्षणीयस्ते युद्धायतुलविक्रम अहम् बुत्सादयिष्यामि शत्रुन्तव महाबलान् यदि चक्रो यदि यदि पावकमारुतौ तानहं योधयिष्यामि कुबेरवरुणोऽपि गिरिमात्रशरीरस्य गिरीमात्र मे नर्दत तीक्ष्णदंशस्य बिभीया द्वै पुरन्दरः अथवा त्यक्तशस्त्रं च मुद्गत तरसारिपुम् न मे स्थातुम् शक्तो जिजीविषु जी नैव शक्त्या न ना गतय नासिन ना निशितैशरी हस्ताभ्यामेव संरभ्य हनिष्यामि स वज्रिणम् यदि मे मुष्टिवेगम् स राघवोद्य सहिष्यति ततः प्रास्यन्ति बाणोघ रुधिरम् राघवस्य मे किमर्थम् नै सोऽहं चत्रो विनाशाय तव निर्व्यातुमुद्यतः मुञ्च रामा भयम् घोरम् निहनेष्यामि संयोगे राघवम् लक्ष्मणम् चैव सुग्रीवम् च महाबलम् हनुमन्तम् च रक्षोघ्नम् येन लङ्का प्रदीपिता हरि संयुगे समुपस्थिते असाधारणम् इच्छामि तव दातुम् महद्यशः यदि चेन्द्राद्भयं राजन् यदि चापि स्वयम्भुव ततोऽहम् नाशयिष्यामि नैषन्त महैवशुमान् अपि देवाशयिष्यन्ते मयि क्रुद्धे महीतले यमं भक्षयिष्यामि पावकम् आदित्यम् पातयिष्यामि स नक्षत्रम् महीतले शतक्रतुम् पास्यामि वरुणालयम् पर्वतान् चूर्णयिष्यामि दारयिष्यामि मेदिनीम् दीर्घकालम् प्रसुप्तस्य कुम्भकर्ण्यस्य विक्रमम् अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः न द्विदम् त्रिदिवम् सर्वम् आहारो मम पूर्यते वधेन ते राश्रथे सुखं सुखम् समाहर्तुमहम् व्रजामि निहश्च रामम् स खादामि सर्वान् हरियूथ मुख्यान् रमस्व राजन्त्युपचाद्य गुरुश्व कृत्या निवनीय दुख मैं रामे गय क्षय चिराय सीता आवश्यक भविष्य इधे श्रीमद् राये वाल्मीकि अदयुद्धेष्टी तम सर्ग श्री सीताचंद्रारणमस्तु